अथैकविंशः सर्गः तथा तु विलपन्तीम् उवाच लक्ष्मणो दीनस्तत्कालसदृशम् वचः न रोचते ममाप्येतदार्ये यद्राघवो वनम् त्यक्त्वा राज्यश्रियम् गतः विपरीतश्च वृद्धश्च विषयैश्च प्रदर्शितः नृपः किमिव न ब्रूयाच्चोद्यमानः समन्मथः नास्यापराधम् पश्यामि नापि दोषम् तथाविधम् येन निर्वास्यते राष्ट्राद्वनवासाय ये राघवः न तम् लोके परोक्षमपि नरः स्वमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत् देवकल्पमृजुम् दान्तम् वत्सलम् अवेक्षारण को धर्म त्यजे पुत्र कारणा तदिद वचनम्रजर्बापेयुष को हृदय कुद्राज वृत्तमुस्म यद न जाना कश्चिदीम नर त मै साधमात्मस्थु शासनम मैया सूषा तव गुप्त राघवा कः समर्थोऽधिकम् कर्तुम् कृताम् तस्यैव तिष्ठतः मनुजर्षभा करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये भरतस्याधपक्ष्यो वा यो वास्य हितमिच्छति सर्वां स्तांश्च वधिष्यामि मृदुर्हि परिभूयते प्रोत्साहितोऽयम् कैकेय्या सन्तुष्टो यदि अमित्रभूतो निःसङ्गम् बध्यताम् बध्यतामपि गुरोरप्यवलिप्तस्य कार्य कार्यमजानतः उत्पथम् प्रतिपन्नस्य कार्यम् भवति शासनम् बलमेष किमाश्रित्य हेतुम् वा कैकेय्या उपस्थितमिदम् त्वया चैव मया चैव कृत्वा वैरमनुत्तमम् कास्य शक्तिश्रियम् दातुम् भरता यारिशासना अनुरक्तोऽस्मि भावेन सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे दीप्तमग्निमरण्यम् वा यदि पूर्वमवधारय हरामिवीर्या दुःखम् ते देवी पश्यतु मे वीर्यम् राघवश्चैव पश्यतु हनिष्ये पितरम् वृद्धं कैकेय्यासक्तमानसम् कृपणम् च स्थितम् बाल्ये वृद्धभावेन गर्हितम् एतत्तु वचनम् श्रुत्वा लक्ष्मणस्य महात्मनः उवाच रामम् कौसल्या रुदती शोकलालसा भ्रातुस्तेव ततः पुत्र लक्ष्मणस्य त्वया यदत्रानन्तरम् तत्त्वम् कुरुष्व यदि रोचते न चाधर्म्यम् वच श्रुत्वा सपत्न्याममभाषितम् विहाय शोकसन्तप्ता गन्तुमर्हसि मामितः धर्मज्ञ इति धर्मिष्ठधर्मम् चरितुमिच्छसि शुश्रूष मामि हस्तत्वम् चरधर्ममनुत्तमम् शुश्रूषुर्जननीम् परेण तपसा युक्तः काश्यपस्त्रिदिवम् गतः यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम् त्वाम् साहम् नानुजानामि न गन्तव्यमितो वनम् त्वद्वियोगान्न मे कार्यम् जीवितेन सुखेन च त्वया मम श्रेयस्तृणानामपि भक्षणम् यदि त्वम् यास्य शिवनम् माम् शोकलालसाम् अहम् प्रायमिहासिष्ये न च शक्ष्यामि जीवितुम् ततस्त्वं प्राप्स्यसे पुत्र निरयम् लोकविश्रुतम् ब्रह्म हत्यामि वा धर्मात् समुद्रः सरिताम् पतिः विलपन्तीम् तथा दीनाम् कौसल्याम् जननीम् ततः उवाच रामो धर्मात्मा वचनं धर्मसंहितम् नास्ति शक्तिः पितुर्वाक्यम् समतिक्रमितुम् मम प्रसादये त्वाम् शिरसा गन्तुमिच्छाम्यहम् वनम् ऋषिणा च पितुर्वाक्यम् कुर्वतावनचारिणा गौर्हता जानता धर्मम् कण्डुना विपश्चिता अस्माकम् तु कुले पूर्वम् सगरस्याज्ञया पितुः खणद्भिः सागरैर्भूमिमवाप्तः सुमहान् मधः रेणुकाजननी स्वयम् कृत्ता परशुनारण्ये पितुर्वचनकारणात् एतैरन्यैश्च बहुभिर्देवी देवसमैः कृतम् पितुर्वचनमक्लीबम् करिष्यामि पितुर्हितम् न खल्वे तन्मयैकेन क्रियते पितृशासनम् एतैरपि कृतम् देवि ये धर्ममपूर्वन्ते प्रतिकूलम् प्रवर्तये पूर्वैरयमभिप्रेतो गतो मार्गोनुगम्यते तदेतत्तु मया कार्यम् क्रियते भुवि नान्यथा पितुर्हि वचनम् कुर्वन्न कश्चिन्नामहीयते तामेवमुक्त्वा जननीम् लक्ष्मणम् पुनरब्रवीत् वाक्यम् वाक्यविदाम् श्रेष्ठः श्रेष्ठः तव लक्ष्मण जानामि विक्रम्च तेजस् सुदुरासद मम माहदुखमु शुभलक्षण अभी प्राइविजा सत्य च शर्मो हि परो लोके सत्यं प्रतिष्ठितं। प्रतिष्ठित धर्म संश्रित्येतुवचनमुतम संश्रुत्य च पितुर्वाक्यम् मातुर्वा ब्राह्मणस्य वा न कर्तव्यम् वृथा वीरधर्ममाश्रित्य तिष्ठत सोऽहम् न शक्ष्यामि पुनर्नियोगमतिवर्तितुम् पितुर्हि वचनाद्वीरकैकेय्याहम् प्रचोदितः तदेताम् विसृजानार्याम् क्षत्रधर्माश्रिताम् मतिम् धर्ममाश्रयमातैक्ष्णयम् तमेवमुक्त्वा सौहार्दाद्भ्रातरम् लक्ष्मणाग्रजः उवाच भूयः कौसल्याम् प्राञ्जलिः शिरसानतः अनुमन्यस्व माम् देवि गमिष्यन्तमितो वनम् शापितासि मम प्राणैः कुरु स्वस्त्यजनानि मे तीर्णप्रतिज्ञश्च वनात् पुनरेष्याम्यहम् पुनर्दिवम् शोकः सन्धार्यताम् मातर्हृदये साधुमाशुचः वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया पितुर्नियोगे स्थातव्यमेष धर्मः सनातनः अम्बसम्भृत्य सम्भारान् दुःखम् हृदि वनवासकृता बुद्धिर्मम एतद्वचस्तस्य निशम्यमाता सुधर्म्यमव्यग्रमविक्लवम् च मृतेव सञ्ज्ञाम् प्रति लभ्य देवी समीक्ष्य रामम् पुनरित्युवाच यथैव पुत्रपिता तथाहं गुरुस्वधर्मेण सुहृत्तया च नत्वानुजानामि न विहाय सुदुःखितामर्हसि पुत्र गन्तुम् किम् जीविते मे लोकेन वा किम् सधया मृतेन श्रेयो मुहूर्तम् तव सन्निधानम् ममैव कृत्स्नादपि जीवलोकात् नरैरिवोल्काभिरपोह्यमानो अभिप्रविष्टः। भूयः प्रज्ज्वाल विलापमेवम् निशम्य रामः करुणम् जनन्याः समातरम् चैव विसञ्ज्ञकल्पार्तम् च सौमित्रमभिप्रतप्तम् धर्मे स्थि धर्मुवाच वाक्यं यहास एवाह त्र वक्त अहम हिते लक्ष्मण निमे जा भक्ति चराक्रम्च मायामसन्नीक्ष्य मा सहाभ्यर्दसी मुदुख धर्मा काम खलु जीव समीक्षिता धर्म एतत्र सर्वे स्युरसंशयम् मे भार्येऽवश्याभिमता स पुत्रा यस्मिन्स्तु सर्वे स्युरसन्निविष्टा धर्मो यतः स्यात् तदुपक्रमेत द्वेष्यो भवत्यर्थपरो हि लोके कामात्मता खल्वपि न प्रशस्ता गुरुश्च राजा च पिता च वृद्धः क्रोधात् प्रहर्षादथवापि कामात् यद्व्यादिशेत् कार्यमवेक्ष्य धर्मम् कस्तम् न कुर्यादमृशम् स वृत्तिः न ते न शक्नोमि पितुः प्रतिज्ञामिमाम् न कर्तुम् सकलाम् यथावत् सह्यावयोस्तात गुरुर्नियोगे देव्याश्च भर्ता स धर्मः तस्मिन् पुनर्जीवति धर्म विशेषतस्वे पथि वर्तमाने देवी मया सार्धमिथोऽपि गच्छेत् कथम् स्विदन्या विदमेव नारी सामानुमन्यस्व वनम् व्रजन्तम् कुरुष्व न स्वस्य जनानि देवी यथा समाप्ते पुनराव्रजेयम् यथा हि सत्येन पुनर्ययातिः यशोह्यहम् केवल राज्यकारणान्न पृष्ठतः कर्तुमलम् महोदयम् अदीर्घकालेन तु देवि जीविते वृणेवरामद्य महीमधर्मतः प्रसादयन्नरवृषभः समातरम् पराक्रमाजिगमिषुरेव दण्डकार अथानुजम् भृशमनुषास्य दर्शनम् चकारताम् हृदि इत्यार्षे श्रीमद् वाल्मीकिये वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकविंशः